ब्रह्माण्डपुराणं मध्यभागम् अध्यायं सेवेण्टि वन् वृष्णीवंशानुकीर्तनं सूत उवाच सात्वताजज्ञिरे पुत्रा कौशल्यायां महाबलाः भजमानो भजिर्दिव्यो वृष्णिर्देवा वृथोऽन्तकः महाभोजश्च विख्यातो ब्रह्मण्य सत्यसङ्करः तेषां हि सर्गाश्चत्वारशृणुध्वं विस्तरेण वै भजमानस्य श्रृञ्जय्यो बाह्यका चोपबाह्यका सृञ्जयस्य सुदेद्वेदो बाह्यके ते उदाहत तस्य भार्ये भगिन्यौ ते प्रसूदे सुतान् बहून् निम्लोजिक् किङ्कणश्चैव दृष्टिः परपुरञ्चयः ते बाह्यकाया श्रृं जय्या भजमानाद्विजज्ञि रे नामतः सहस्र चि क्षदाजिनाह्य कां भगिन्या भजमाज्षा देवृथो राज चचारपर्वुणोपेदो मम भूयादि स् संयोज्यात्मानमेवं स पर्णाश्य जलमस्पृशद सा चोपस्पर्शनात्तस्य चकारप्रियमापगा कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा जगामाथविनिश्चयं नाभिगच्छामि तां नारीं यस्यामेवं विधस्सुतः भवेत्सर्वगुणोपेदो राज्ञो देवावृधस्य हि तस्मादस्य स्वयं चाहं भवाम्यद्य सह यज्ञे तस्या स्वयं हृत्स्थो भावास्तस्य यथेरितः अधबुत्वा कुमारीदु कुमारी तु सा चिन्ता परमेव च परयामास राजानं तामि अध सा नवमे मासि सुषुवे सरिदावरा पुत्रं सर्वगुणो वेदं बभ्रुं देवा वृध तदा तत्र वंशे पुराणज्ञा गाधां गायन्ति वै द्विजाः गुणान् देवा वृधस्यापि कीर्तयन्तो महात्मनः यथैव शृणुमो दूरात् सम्पश्यामस्तथान्तिकादबभ्रुश्रेष्ठो मनुष्याणां देवैर्देवावृतः समः पुरुषाः पञ्चषष्ठिश्च सहस्राणि च सप्ततिः ये मृतत्वमनुप्राप्ता बभ्रोर्देवावृथादपि यज्वादानपदिर्धीरो ब्रह्मण्यः सत्यवाग्बुधः कीर्तिमांश्च महाभोजः सात्वतानां महारथः तस्यान्ववायः सुमहान् भोजाये भूवि विश्रुताः गांधारी चैव माद्री च दृष्टैर्भार्ये बभूवधूः गान्धारी जनयामास सुमित्रं मित्रनन्दनं साद्री युधाजिदं पुत्रं तदो मीढ्वां समेव अनमित्रं शिनं चैव ता बुभौ पुरुषोत्तमौ अनमित्रसुदो निघ्नो द्वौ बभूवधूः प्रसेनश्च महाभागशत्राजिच सुदा बुभौ तस्य सत्राजिदसूर्यसखा प्राण समो भवत् स कदाच्चिन्निशापाये रथेन रथिनां वरः तोयं कूलात् समुद्धर्तुमुपस्थातुं ययौरविं तस्योपतिष्ठतः सूर्यं विवश्वानग्रतस्थिदः सुस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान्विभुः अधराजा विवस्वन्तमुवाच स्थितमग्रतः यथैव व्यों निपश्यामि त्वामहं ज्योतिषां पदे तेजोमण्डलिनं चैव तथैवाप्यग्रदस्थितं को विशेषो विवस्वंस्थे सङ्ख्येनोपगतस्य वै यदच्छ्रुत्वा स भगवान्मणिरत्नं श्यमन्थकं स्वकण्ठादवमुच्याध बबन्ध नृपतेस्तदा तदो विग्रहवन्तं तं ददर्श नृपतिस्तदा प्रीतिमानधत्तं दृष्ट्वा मुहूर्तं कृतवान् कथां तमभिप्रस्थितं भूयो विवस्वन्तं सत्रजिद प्रोवाचाग्निसवर्णं त्वां येन लोकः प्रपश्यति तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि श्यमन्तकं नामणिं दत्तवां तस्य भास्करः स दमामुच्यनगरीं प्रविवेश महीपतिः विस्मापयित्वात ततः पुरीमन्तः पुरं व्ययौ सप्रसेनाय तद्दिव्यं मणिरत्नं श्यमन्तकम् ददौ भ्रात्रे नरपधिप्रेम्णा सत्रा जिदुत्तमं श्यमन्तको नाम मणिर्यस्मिन् राष्ट्रे स्थितो भवेद् कामवर्षी च पर्जन्यो नचव्याधिभयं च व्याधिभयं तथा लिप्सां चक्रे प्रसेना तु गोविन्दो न च तं लेभे शक्तोऽपि न जहार च कदाचिन्मृगयां व्यादःप्रसेनस्तेन शमन्तककृते सिंहाद्वदं प्राप सुदारुणम् जाम्बवान् ऋक्षराजस्तु तं सिंहं निजकान् आदाय च मणिं दिव्यं स्वबिलं प्रविवेशः तत्कर्म कृष्णस्य तदो वृष्ण्यन्तकमहत्तराः मणिं गृध्नोऽस्तु मन्वानास्तमेव विशशङ्गिरे मिथ्यापवादं तेभ्यस्तं बलवानरिसूदनः अमृष्यमाणो भगवान्वनं स विचचारः सदुप्रोसेनो प्रोसेनो प्रसेनस्य पदं पुरं पौराप्तकारिभिः ऋक्षवन्दं गिरिवरं विन्ध्यं च नगमुत्तमम् अन्वेषयत्परिश्रान्त सददर्शमहामनाः साश्वं खदं प्रसेनं तं नाविन्दत्तत्र वैमणिम् अध सिंहप्रसेनस्य विदूरतः वृक्षेण निहतो दृष्टः पदैर्वृक्षस्य सूचितः पदैरन्वेषयामास गुहा वृक्षस्य यादवः महत्यन्तर्भिरे वाणीं शश्रावप्रमदेरिताम् धात्र्या कुमारमादाय सुदं जाम्बवदो द्विजाः क्रीडयन्त्याधमणिना मारोदीरित्युदीरितं धात्र्युवाच प्रशेनमवधीत् सिंहसिंहो जाम्बवदाहतः सुकुमारकमारोदिस्तवस्यें स्यमन्तकः व्यक्रीकृतश्च शब्दस तूर्णं चापि ययौ बिलम् अपश्यच्च बिलाभ्यासे प्रसेनमवदारितं प्रविश्य चापि भगवान् स ऋक्षबिलमं च सा ददर्शऋषराजानां जाम्बवन्तमुदारधीः युयुधे वासुदेवस्तु बिले बिलेजाम्भवदा सह बाहुभ्यामेव दिवसानेक दिवसानेकविंशतिं प्रविष्टे जबिलं कृष्णे वसुदेवा पुरःसराः पुनर्द्वारवतीं चैत्यहदं कृष्णं न्यवेदयन् वासुदेवस्तु निर्जित्य जाम्बवन्दं महाबलं लेभे जाम्बवन्तीं कन्यां वृक्षराजस्य सम्मना भगवतेजसाग्रस्तो जाम्बवां प्रसभं मणिम् सुधां जाम्बवदीमाशु विश्वक्षेनाय दत्तवान् मणिंस्यमन्दकं चैव जग्रहात्मविशुद्धये अनुनी यक्षराजं तं निर्ययौ च तदाभिलाद एवं स मणिमाहृत्य विशोध्यात्मानमात्मना ददौ सत्राजिदेरत्नं मणिं सात्वदसन्निधौ कन्यां पुनर्जाम्भवतीमुवाह मधुसूदनः तस्मान्मिथ्याभिशापात्तु व्यशुध्यन्मधुसूदनः इमां मिथ्याभिशाप्तिं ह्यकृष्णस्येहव्यपोहिताम् वेदमिथ्याभिषप्तिं स नाभिस्पृशति कर्षिचिद् दशत्वात्रजितो भार्यास्तस्यायुतं सुताः भंगकारस्तु भङ्गकारस्तु पूर्वजः वीरो वादपदिश्चैव तपस्वी बहुप्रियः अधवीरमदीनामभङ्गकारस्य तु प्रसूः सुषुवेशकुमारीस्तु तिस्रोजोपगुणान्विताः सत्यभामोत्तमास्त्रीणां व्रतिनी च दृढव्रता तथा तपस्विनीचैव पिता कृष्णायतां ददौ न च सत्राजिदकृष्णो मणिरत्नं श्यमन्दकम् आदत्त तदुपश्रुत्य भोजेन शदधन्वना तदा हि प्रार्थयामास सत्यभामामनिन्दिताम् अक्रूरो धनमन्विच्छन् मणिं चैवस्य मन्दकं सत्राजिदं तदोयित्वा शदधन्वा महाबलः रात्रौ तं मणिमादाय सदोक्रूराय दत्तवान् अक्रूरस्तु तदा रत्नमादाय स नर्षभः समयं चक्रे बोद्ध्यो नान्यस्य चेत्युत त्वयमभ्युपयोत्स्याम कृष्णेन त्वां प्रदर्शितं मम वैद्वारका सर्वा वेषे तिष्ठत्य संशयम् अधेपितरि दुःखार्ता सत्यभामा यशस्विनी प्रयौ रथमारुह्य नगरं वारणावधं सत्यभामातु तद्वृत्तं भोजस्य शतधन्वनः भर्तुं निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् पाण्डवानां तु दग्धानां हरि कृत्वोदक्रियां कल्यार्थे चैव भ्रातॄणां न्ययोजयदसात्य किम् तदस्त्वरिदमागत्य द्वारकां मधुसूदनः पूर्वजं हलिनं श्रीमानिदं वजनमब्रवीद हदप्रसेनसिंहेन सत्राजि शतधन्वना श्यमन्तको मार्गणीयस्तस्य प्रभुरसं प्रभो तहारोहरथं शीघ्रं भोजं हत्वा महाबलं श्यमन्तकं महाबाहो सामान्यं वो भविष्यति ततः प्रवृत्ते भोज कृष्णयोहो तु मूले भोजकृष्णयोः शतधन्वात्तमक्रूरमवैक्षत्सर्वतो दिशम् अनालब्धावहारौ तु कृत्वा भोज भोजनार्दनौ शक्रोऽपि षाढ्याधाधिक्यो ना क्रूरोऽभ्युपपद्यत अपयो तदो बुद्धिं भूयश्चक्रे भयान्वितः योजनानां शतं साघ्रं हृदया प्रत्यपद्यत विख्याता हृदयानां शदयोजनगामिनी भोजस्य वडवादिव्या यया कृष्णमयोधयद क्षीणां जवेन धृदयामध्वनशदयोजने दृष्ट्वा रथस्यतां वृद्धिं शदधन्वा समुद्रवद ततस्तस्या हयास्तु श्रमाद्खेदाच्च वैद्विजाः कमुत् प्राणा कृष्णो राम वेदुरथप्राह्णाकृष्णो राममधाब्रवीत् तिष्ठस्वेहमहाबाहो दृष्टदोषो मया हयी पद्भ्यां गत्वा हरिष्यामि मणिरत्नं श्यमन्तकम् पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः मिथिलोपवने तं वै जखानपरमास्त्रविद श्यमन्तकं न चापश्यद्धत्वा भोजं महाबलं निवृत्तं चाब्रवीत्कृष्णं रत्नं देहीदि लाङ्गली नास्त्यधि कृष्णश्चोवाच ततो रामो रुषान्वितः शब्दपूर्वमसकृत्प्रत्युवाच जनार्दनम् भ्राधृत्वान्मर्षयां वेषस्वस्तितेस्तु व्रजाम्यहं कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः प्रविवेश तदो रामो मिथिलां मरिमर्दनः सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः यदस्मिन्नेव काले तु बभ्रुर्मदिमदाम्बरः नानारूपान् क्रतोन् सर्वा नाजहार निरर्गलान् दीक्षामयं सकवचं रक्षार्थं प्रविवेशः शमन्तककृते प्राज्ञो कान्तिनीजो महामनाः अघूरयज्ञा इति ख्यातास्तस्य महात्मनः बह्वन्नदक्षिणा सर्वे सर्वकामप्रदायिनः अध दुर्योधनो राजा गत्वाथ मिथिलां प्रभुः गदाशिक्षां तदो दिव्यां बलभद्रादवाप्तवान् प्रसाद्य तदो रामो वृष्ण्यन्थकमहारथैः आनीतो द्वारकामेव कृष्णेन च महात्मना अक्रोरश्चान्तकैः पुरुषर्षभः युद्धेहत्वाद्न सह बंधुमदली सुयज्ञतनयां तो नायाँ नरसम भंगय विश्रुतौ सुमहबलौ जुख्य शक्रघ्नो बंधुम तौ वे च भङ्ककारस्य कृष्णो न प्रीतिमानभूत् ज्ञादिभेदभयाद्भेदस्तमुभेक्षितवानथापयादे तदक्रूरे नावर्षद्पाकशासनः अनावृष्ट्या कदं राष्ट्रमभवद्बहुधा यतः ततः प्रसादया प्रसादयामासुरक्रूरं कुकुरान्थकाः पुनर्द्वारवधिं प्राप्ते तदा दानपतौ तथा प्रववर्षसहस्राक्षकुक्षौ जलनिधेस्ततः कन्यां वै वासुदेवाय स्वसारं शीलसम्मताम् अक्रूर प्रदौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाहा अध विज्ञाय योगेन कृष्णो बब्रुगदं मणिं सभामध्ये तदाप्राहतमक्रूरं जनार्दनः यत्तद्रत्नं मणिवरं तव हस्तगतं प्रभो तत्र य स्वमानार्ह मयि मार्यगं कृताः षष्टिवर्षगदे काले यद्रोशोऽभूतदा मम सुसंरुढो सकृत्प्राप्तस्तदा कालाद्ययो महान् तथा कृष्णस्य वचनात्सर्वसात्त्वदसंसदि प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः तदस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः ददौ हृष्टमनास्तुष्टस्तं मणिं बभ्रवे पुनः हस्तात्सम्प्राप्य मणिरत्नं श्यमन्तकम् आबध्य गान्धिनीपुत्रो वीरराजांशुमानिव इमां मिथ्याभिशाप्तिं यो विशुद्धिमपि चोत्तमां वेदमिथ्याभिशाप्तिं स न लभेदकथञ्चन अनमित्राच्चिनिर्जज्ञे कनिष्ठाध्वृष्णिनन्दनाद् सत्यवान् सत्यसम्पन्नस्सत्यकस्तस्य चात्मजः सात्यकिर्युयुधानश्च तस्य भूदिस्सुदोऽभवत् भूतेर्युगन्धरः पुत्र इति भौत्यः प्रकीर्तितः सुदो जज्ञे दुःसुतो वृष्णेर्युधाजितः ज्ञादेतनयौ वृष्णेश्वफल्कश्चित्र कश्चयः स्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्तते नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा कदाचित् काशिराजस्य विभोस्तु द्विजसत्तमाः त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः स तत्र वासया वासयामासफल्कं परमार्चिदं स्वफल्क परिवासेन प्रावर्षत्पादशासनः स्वफल्कस्काशिराजस्य सुगां भार्यामविन्दद गान्धिनीं नाम गां साहि ददौ विप्राय नित्यशः सा मादुरुदरस्था वै बहून्वर्षशतान् किल निवसन्ति न वै जज्ञे गर्भस्तां तां पिता ब्रवीत् जायस्व शीघ्रं भद्रं किमर्थं वापि प्रोवाच प्रोवाचैनं गर्भस्था सा कन्या गां दिने दिने यदि दद्यास्तदो गर्भाद् बहिः स्यां हायनैस्त्रिभिः तदेत्युवाच तां तस्याः पिता काममपूरयत् दाता यज्वाच शूरश्च श्रुतवानदिप्रियः तस्या पुत्रस्मृदो क्रूरश्वाफल्को भूरिदक्षिणः उपमङ्गुस्तथा मङ्गुमृदुरश्चारिमे जयः गिरिरक्षस्ततो यक्षशत्रुघ्नोधारिमर्दनः आवहप्रदिवाहौ च वसुदेवा वसुदेवावराङ्गना अक्रूरादौग्रसेन्यान्तु सुतौ द्वौ कुलनन्दिनौ देववानुपदेवश्च जज्ञादेवासन्निभौ चित्रकस्या भवन्पुत्राः पृथुर्विपृधुरेव च अश्वग्रीवोश्ववाहश्च सुपार्श्वकगवेषणौ अरिष्टनेमिरश्वास्य सुमा वर्मभृत्तथा अभूमिर्बहुभूमिश्च स्रविष्टाश्रवणे स्त्रियौ सत्यका कुकुरम् भजमानं च शुचिं कम्बलबर्हिषं कुकुरस्य सुधो वृष्णिर्वृष्णेस्तु तनयो भवत् कपोदरो मा तस्याध विलोमा भवदात्मजः तस्यास्य तुम्बुरुसखा विद्वान् पुत्रोऽम्धकः किल ख्यायते यस्य नामान्य नामान्यच्चन्दनोदगदुन्दुभिः तस्याभिजित्ततः पुत्र उत्पन्नस्तु पुनर्वसुः अश्वमेधं तु पुत्रार्थमाजहार नरोत्तमः तस्य मध्ये तिरात्रस्य सदो मध्यात् स सुच्छ्रुतः ततस्तु विद्वान्धर्मज्ञो दादायज्वा पुनर्वसुः तस्याधपुत्रमिथुनं बभूवाभिजितः किल आहुकश्चाहुकी चैव ख्यादौ मदिमदां वरौ इमां चोदाहरन्ध्यत्र श्लोकान् प्रदि सोपा साङ्गानुकर्षाणां सध्वजानां वरूधिनां रथानां मेघकोषाणां महस्राणि दशैव न सत्यवादी चासीतु नायज्ञो ना सहस्रदः ना, ना शुचिर्नाप्यधर्मात्मान्ना विद्वान्न कृशो भवद् आर्द्र कस्य धृतिपुत्र इत्येवमनुशुश्रुमम् स तेन परिवारेण हयान। अशीतिमश्व नियुतान्याहुकोप्रमो व्रजन् पूर्वस्यां दिशि नागानां भोजस्य त्वदिभावयन् रूप्य काञ्चनकक्षाणां सहस्राण्येकविंशतिः तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि भूमिपालस्य भोजस्य उत्तिष्ठेत् किङ्णि किल आहुकश्चाप्यवन्दीषु स्वसारं त्वाहुकीं ददौ आहुकात् काश्यदुखितुर्द्वै पुत्रौ सं बभूवधूः देवकश्चोग्रसेनश्च देवगर्भसमावुभौ देवकस्य सुधा वीरा जज्ञिरे त्रिदशोपमाः देववानुपदेवश्च देवरक्षितः, तेषां स्वसारसप्तास्सन्वसुदेवायता ददौ धृतदेवोपदेवा च तथान्या देवरक्षिता श्रिदेवा शान्तिदेवा च सहदेवा तथा परा सप्तमी देवगीतासां दर्शना, नवोऽग्रसेनस्य सुधा कंसस्तेषां तु पूर्वजः न्यग्रोधश्च सुनामा च कङ्ग शङ्कु सुभोमयः सुतनुराष्ट्रपालश्च तुष्टिमान् तेषां स्वसारः पञ्चैव हंसा हंसवती तथा सुतनुराष्ट्रपाली च गङ्गा चैव उग्रसेनो महापत्यो व्याख्यादुकुद्भव कुकुराणाम वंशम धारयसा आत्मनो विपुल वंशम प्रजावा भव नर भजमा पुत्रस्त रि मुख्यो विदुरथ राजाधिदेवशूरश्च विदूरथसुतोऽभवद तस्य शूरस्य तु सुदा जज्ञिरे बलवत्तराः पादश्चैव निवातश्च शोणितस्वेदवाहनः शमीच गदवर्माच च नितान्धलु शमी पुत्रः प्रदिक्षत्र प्रदिक्षत्रस्य चात्मजः स्वयं भोजस्वयं भोजा हृदिकसं बभूवः हृदिकस्य सुधास्त्वासन्दश भीमपराक्रमाः कृतवर्माग्रजस्तेषां शदधन्वादुमध्यमः देवबाहु सुबाहुश्च भिषक्ष्वेदरथश्च यः सुदान्तश्चाधिदान्तश्च कनकनकोद्भवः देवबाहोस्सुधो विद्वान् जज्ञे कम्बलबर्हिषः अस मौजासुदस्तस्य सुसमौजाश्च विश्रुतः अजातपुत्राय तदप्रददावस मौजसे सुचन्द्रं वसुरूपं च कृष्ण इत्यन्धका स्मृताः अन्धकानामिमं वंश्यं कीर्तयेद्यस्तु नित्यशः आत्मनो विपुलं वंशं लभदे नात्र संशयः अश्मक्यां जनयामास शूरं वैदेवमीढुषं मारिष्यां ज्ञरे शूराद् भोजायां पुरुषा दश वसुदेवो महाबाकुः पूर्वमानकदुन्दुभिः ज्ञे तस्य प्रसूतस्य दुन्दुभिप्राणदद् दिवि आनकानां च संस्नादसुमहानभवद्दिवि पपाद पुष्पवर्षं च शरस्य भवने महद मनुष्यलोके कृत्स्नेऽपि रूपेनास्ति समो भुवि यस्यासीत् पुरुषा गृहस्य कान्तिश्चन्द्रमसो यथा देवभागस्तदो तदो देवश्रवाः पुनः अनाधृष्टिभृकश्चैव नन्दनश्चैव सृञ्जयः श्यामशमीको गण्डोषस्वसारस्तु वरागणाः पृथा च श्रुतदेवा च श्रुतकीर्तिश्रुतश्रवाः राजादिदेवी च तथा पञ्चैता वीरमादरः पृथां दुःखितरं शूरक कुन्दिभोजाय वै तस्मात्सादु स्मृता साधु स्मृता कुन्दी कुन्दिभोजात्मजापृथा कुरु वीरःपाण्डुमुख्यस्तस्माद् भार्यामविन्ददा वृथा यज्ञे ततः पुत्रां स्त्रीनग्नि समतेजसः लोके पराक्रमान् धर्माद्युधिष्ठिरं पुत्रं मारुताच्च मृगोदरम् इन्द्राधनञ्चयं चैव पृधा पुत्रा नजीचनत माद्रवत्यादो जनिदावश्विना विधि न कुलः सहदेवश्च रूपसत्वगुणान्वितौ जज्ञे तनयो वृद्धशर्मणः करुषाधिपतेर्वीरो दन्तवक्रो महाबलः कैकयाच्छ्रुतिकीर्त्यं तु यज्ञे सन्दर्दनो बली चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ विन्दानु विन्दावन्त्यौ भ्रातरौ सुमहाबलौ श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूवः दमकोशस्य राजर्षे पुत्रो विख्यातपौरुषः यः पुरा स दशग्रीवसम्बभूवारिमर्दनः वैश्रवणानुजस्तस्य कुम्भकर्णोऽनुजस्तथा पत्न्यस्तु वसुदेवस्य त्रयोदशवराङ्गनाः पौरवी पौरवीरोहिणी चैव मदिरा चापरा तथा तथैव भद्रवैशाखी सुनामनी पञ्चमी तथा सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता धृतदेवोपदेवा च देवकी सप्तमी तथा सुगंध वनराजी चवेशान्ये परिचारिके रोहिणी पौरवी चाही कस्जावत ज्येष्ठा पत्नी महाभागदयिताुे ज्येष्ठे लेभे सुदंराम सारणं हि षढं तथा दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ चित्रां नाम कुमारीं च रोहिण्यष्टौ व्यजायत पुत्रौ रामस्य ज्ञादे विज्ञादौ निषढोल्मुखौ पार्श्वे च पार्श्वमर्दी च शिशुसत्यधृतिस्तथा मन्दबास्योधरामणा गिरिको गिरिरेव च शुल्कगुल्मोदिगुल्मश्च दरिद्रान्तक एव च कुमार्यश्चापि पञ्चान्या नामतस्ता निबोधत अर्चिष्मदी सुनन्दा च सुरसा सुवचास्तथा तथा शतबला चैव शरणस्य सुधास्त्विमाहा भद्राश्वो भद्रगुप्तिश्च भद्रविष्टस्तथैव च भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च सुपार्श्वखकीर्तिमांश्च रोहिताश्वशठात्मजाः दुर्मदस्याभिभूतश्च रोहिण्या कुलजा स्मृताः नन्दोपनन्दौ मित्रश्च कुक्षि क्षिमित्रस्तथा बलः चित्रोपचित्रौ कृतकस्तुष्टिपुष्टिरधापरः मदिरायासुदायेरे वसुदेवाद्धिजज्ञिरे उप बिम्बोधबिम्बश्च सत्वदन्तमहौ जसौ चत्वारयेदे विख्यादा भद्रापुत्रा महाबलाः वैशाल्या मददाश्चौरिपुत्रं कौशिकमुत्तमं देवक्यां जज्ञिरे सौरे सुषेणः कीर्तिमानविदर्शिर्भद्रसेनश्च ऋजुदायश्च पञ्चमः षष्टो हि भद्रदेवश्च कंसत् सर्वाञ्जकनतान् अध तस्यामवस्थाया आयुष्मान् संबभुवः लोकनाथ कृष्णः प्रजापतिः अनुजादा भव कृष्णासुभद्रा भद्रभाषिणी कृष्णा सुभद्रेधि पुनर्व्याख्यादा वृष्णिनन्दिनी सुभद्रायां वृद्धि पार्थादभिमन्युरजायद वसुदेवस्य भार्यासु महाभागासु सप्तसु ये पुत्रा जग्निरेशूरा नाम तस्तान्निबोधत पूर्वाद्यात् सहदेवायां शूराद्वै जज्ञिरे सुदाः शान्तिदेवाज्जनस्तम्भं सौरेर्जज्ञे कुलोद्वहम् आगाह्वहो महात्मा च वृकदेव्यामजायद श्रीदेवायां स्वयं जज्ञे मन्दको नाम नामतः उपासङ्गं वसुं चापि तनयौ देवरक्षिता एवं दशसुधास्तस्य कंसस्थानप्यखादयद विषयं रोचनं चैव वर्धमानं च देवलं वेदान् महात्मनः पुत्रान् सुषाव शिशिरावती सप्तमी देवगी पुत्रं सुनामानमसूयत गवेषणं महाभागं संग्रामे चित्रयोधिनं श्राद्धदेव्यां पुरोद्याने वनेदु दो वैश्यायामदधाश्चौरिपुत्रं कौशिकमव्ययं सुगन्धी वनराजी च चा। शौरेरास्तां परिग्रहौ पुण्डश्च चा कपिलश्चैव सुगन्ध्याश्चात्मजौतुतौ तयो राजा भवत्पुण्ढ्रकपिलस्तु वनं अन्यस्यामभवद्वीरो वसुदेवात्मजो बली जरानाम नाम निषादोऽसौ प्रथमः स धनुर्धरः विख्यातो देवभाग्यस्य महाभागसुतो भवद पण्डितानां मदं प्राहु देवश्रवसमुद्भवम् अश्मक्यां लभदे पुत्रमना धृष्टिर्यशास्विनं निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलं व्यजायदश्राद्धदेवो नैषा दीर्यः पारिश्रुतः एकलव्यो महाभागो निशादैः परिवर्धितः गण्डूर्षाय नपत्याय कृष्णस्तुष्टो ददात्सुतौ चारुदेष्णं च साम्भं च कृतास्त्रौ शस्तलक्षणौ रन्दिश्च रन्दिपालश्च द्वौ पुत्रौ नन्दनस्य च स्मृकाय वैत्वपुत्राय वसुदेवः प्रतापवान् सौमिं ददौ सुतवीरं शौरिकौशिकमेव च सृञ्जयस्य धनुश्चैव विरजाश्च सुधाविमौ अनपत्यो भवत्यामशमीकस्तु वनं ययौ जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् य इदं जन्म कृष्णस्य पठदे नियतव्रदः श्रावयेद्ब्राह्मणं वापि समहात्सुखमवाप्नुयाद देवदेवो महातेजाः पूर्वं कृष्णः प्रजापतिः विकारार्थं मनुष्येषु यज्ञे नारायणप्रभुः वसुदेवेन तपसा पुष्करे क्षणः चतुर्बाहुस्तु संजज्ञे दिव्यरूपश्रियान्वितः प्रकाश्यो भगवान् योगी कृष्णो मानुषतां गदः अव्यक्तो व्यक्तलिङ्गश्च स एव भगवान् प्रभुः नारायणो यतश्चक्रे व्ययं चैव व्ययं देवो नारायणो भूत्वा हरिरासीत्सनातनः यो भुञ्चाच्चादिपुरुषं पुराचक्रे प्रजापदिं अदितेरपि पुत्रत्वमेत्य यादवनन्दनः देवो विष्णुरिधिख्या भवद प्रासादयन्यं च विभुं ह्यदित्या पुत्रकारणे वधार्थम् सुरशत्रूणां दैत्यदानवरक्षसां ययाधि वंशजस्याथ वसुदेवस्य धीमतः कुलं पुण्यं यदो जन्म भेजे नारायणप्रभुः सागरास्समकम्पत चेलुश्च धरणीतराः जज्वलुस्त्वग्निहोत्राणि जायमाने जनार्दने शिवाश्च प्रववुर्वदा प्रशान्तमभवद्रजः ज्योतिंस्य अभिधिकं जनार्दने अभिजिन्नामनक्षत्रं जयन्ती मुहूर्तो विजयो नाम यत्र जादो जनार्दनः अव्यक्रशाश्वतकृष्णो हरिर्नारायणप्रभुः जज्ञे तथैव भगवान् मायया मोहयन् प्रजाः आकाशात् पुष्पवृष्टिं च ववर्षत्रिदशेश्वरः गीर्भिर्मङ्गलयुक्ताभिस्तुबन्धो मधुसूदनं महर्षयः स गन्धर्वा उपतस्तु सहस्रशः वसुदेवस्तुतं रात्रौ जातं पुत्रमधोक्षजं श्रीवत्सलक्षणं दृष्ट्वा हृदि दिव्यै स्वलक्षणैः उवाच वसुदेवस्तं रूपं संहर वै प्रभो भीतोहं कंसतस्ताद तस्मादेवं ब्रवीम्यहं मम नज्येष्टास्ते कदास्तेन दर्शनाः वसुदेव श्रुत्वा रूपं संहृतवान् प्रभुः अनुज्ञातः पितात्वेन नन्दगोपगृहसं न यद उग्रशनगृहे तिष्ठद्यशोदायैतदा ददौ तुल्यकालं तु गर्भिण्यौ यशोदादेवकी तथा यशोदानन्दगोपस्य पत्नी सा नन्दगोपतेः यामेव रजनीं कृष्णो जज्ञे वृष्णिकुले प्रभुः तामेव रजनीं कन्या यशोदायां व्यजायत तं रक्षमानस्तु वसुदेवो महायशाः प्रादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयं तत्त्वेमं नन्दगोपस्य रक्षेममिति चाब्रवीद सुतस्ते सर्वकल्याणो यादवानां भविष्यति अयं स गर्भा देवज्ञा मम क्लेशान् हरिष्यति उग्रसेनात्मजायाथ कन्यामानकदुन्दुभिः निवेदयामास तदा कन्येदिशुभलक्षणा स्वसुस्तुतनयं कंसो जादं नैवावधारयद दा। अधतामपि दुष्टात्मा स्युत्ससर्जमुदान्वितः तवैशाखि यथा कन्या तथा मम न संशयः न हन्मीमां महाबाहो व्रज त्वेषा यथा रुचि कन्या सा त्ववृद्धे तत्र वृष्णिसत्मनिपूजिता पुत्रवत्पालयामास देवी देवीं मुदा तदा तमेवं विधिनोत्पन्नमाहु कृष्णं प्रजापतिं एकादशादुजज्ञे वै रक्षार्थं केशवस्यः एदां चैकाग्रमनः स पूजयिष्यन्ति यादवाः देवदेवो दिव्यवभु कृष्णः संरक्षितो नया ऋषय ऊचुः कि वसुदेव भोज कंसो नराधिपखान पुत्र बै तनो व्याख्यामसीच शृणुम वै यहांसपुत्र नानकुंदुभे जादाञ्जादास्तु तान् सर्वान् निष्पिपेष वृथा मतिः भयाद्यथा महाबाहो जाधकृष्णो विवासितः यथा च गोसुगोविन्दसमृद्धपुरुषोत्तमः उद्वाहे किल देवक्या वसुदेवस्य धीमतः सारथ्यम् कृतवान् कंसो युवराजस्तदाभवद तदोऽन्तरिक्षे वागास्य दिव्याभूद्यस्य कस्यचित् कंसस्य नाममात्रेण पुष्कला लोकसाक्षिणी यामेदं वहसे कंस ष्टमो गर्भ सदे मृत्युर्भिष्युवा व्यथि वाणी तदा कंसो वृधाम मकृष्य खड्गम तं कन्याद कामोब तदा तमुवाच महासुदेव प्रतापवान् उग्रसेनात्मजं कं सं सौद्धृतात्प्रणयेन वा न स्त्रियं क्षत्रियो जादु हन्तुमर्हसि कश्चन उपाय मया यादवनन्तन यो स्यात्सं तमहं ते प्रयच्छामि तत्र कुर्या यथा क्रमं न द्विदानीं त्वं वर्तेधा भूरिदक्षिण सर्वानप्यधवा गर्भान् पृथं नेष्यामि देवश्यं एवं मिद्या नरश्रेष्ठ वागेषा न भविष्यदि एवमुक्तो नुनीतः स जग्राहवचनं तदा वसुदेवश्च तां मुदिदो मुदितोऽभवद कंसस्तस्या वधीत्पुत्रान् पापकर्मा वृथा मतिः ऋषय ऊचुः क वसुदेवस्तु देवकी च यशस्विनी नन्दगोपस्तु कस्त्वेष यशोदाय महायशाः यो विष्णुं जनयामास यञ्च तादेत्यभाषत या गर्भं जनयामास या वैनं याभ्यवर्धयद सूत उवाच पुरुष कश्यपस्त्वास्य ददिस्तत्प्रिया तथा कश्यपो ब्रह्मणोश्च पृथिव्या आदितिस्तथा नन्दोद्रो णसमाख्यादो यशोदा च अथ कामान् महाबाहुर्देवक्याः सम्प्रवर्धयन् अचरत्समहीं देवः प्रविष्टो मानुषीं तनुं मोहयन् सर्वभूतानि योगात्मा योगमायया नष्टे धर्मे तदा यज्ञे वृष्णिकुले स्वयं कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनं वैदर्भीरुक्मिणी कन्या सत्याजिदस्तदा सत्राचिदसत्यभामा जाम् भवत्यपि रोहिणी शैब्या धन्यानि देवीनां सहस्राणि च षोडश चतुर्दश तुये प्रोक्ता गणास्त्वप्सरसां दिवि विचार्य देवै शक्रेण विशिष्टास्त्विः प्रेषिताः पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु यदा पत्न्यो महाभागा विश्वसेनस्य विश्रुताः प्रद्युम्नश्चारुदेष्णश्च सुदेव शरभस्तथा चारुश्च चारुभद्रश्च भद्रचारुस्तथा परः चारुविद्यश्च रुक्मिण्याम् कन्या चारुमती तथा सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रवित्तथा धा, जरोद्धगस्ताम्रचक्रौ सौभरिश्च चरेधरः चदस्रो जज्ञिरेतेषां स्वसारो गरुडध्वजाद भानुसौ काम्रपर्णी जरंधर सत्यमुता ये जाबव्रृणु भद्रश्च भद्रगुप्तश्च भद्रगुप्त भद्रचिस्त्रबाश्च विख्यातकद्रवती तथा सम्बोधनी च विख्याता ज्ञेया जाम्बवतीसुताः सङ्ग्रामजिच्च शदजित्तथैव च सहस्रजिद एते पुत्रास् सुदेव्यां च विक्ष्वत्सेनस्य कीर्तिताः मित्रबू सुनीध नाग्नजिथास्व यदी पुत्रण सहस्राणी निबोधत प्रयूत तो सामख्यासुदस्या सुता अयुता यथाष्ट शूरा रणविशारदाः जनार्दनस्य वंशोभकीर्तितोऽयं यथा कथं बृहदी पुरुभार्या सेत्सुमध्या सुगदिस्तथा कन्या सा बृहदुग्धस्य शैने यस्य महात्मनः तस्याः पुत्रास्तु विख्यादास्त्रयत् समिधि शोभनाः आनन्दकनकश्वेधकन्याश्वेदा तथैव च अगावकस्य चित्रश्च शूरश्चित्ररथश्च यः चित्रसेनस्मृतश्चास्य कन्याश्चित्रवती तथा तुम्भश्च तुम्बं वर्चाश्च जाद तुंबस तवो भौ उपासध् दौ दौ वज्रह क्षिप्रे चूरीो भूरिश्च गवेशुभ युधिष्ठिश् कन्यां शुस्त काश्यां तु पञ्चतनया सत्यप्रकृतयो देवाः पञ्चवीराः प्रकीर्तिताः तिस्रकोट्यस्तु पौत्राणां यादवानां महात्मनां सर्वमेव कुलं यच्च वर्तन्ते चैव एकुले विषुस्माणे च प्रभु व्यवस्थित बध्यन्ते बध्य दवासुरावहता असुरा असुराये महाबलाः मनुष्यु बाधं बाधन्ते दु मानवान् मुत्सादनार्थाय उत्पन्ना यादवे कुले समुत्पन्नं कुलशदं यादवानां महात्मनां यदि प्रसूदिर्वृष्णीनां समासव्यासयोगतः कीर्तिदा कीर्तनीयास कीर्तिसिद्धिमपीप्सदा यी ब्रह्माडे महापुराणे वायुप्रोक् मध्यम भगे तृतीय उपोदादे वृष्णिवशानुकर्तन नामक सप्ततितम ओ